श्रीमद्भागवतमहापुराणं दशमस्कन्ध दशमोऽध्यायः श्रीशोकुवाच देवमुक्त्वा सदेवर्षे गतो नारायणाश्रमं नलकूबर्मणिग्रीवां द्वासतुर्यमलार्जुनौ ऋषेभागवतमुख्यस्य सत्यं कर्तुं वचो हरे जगामसनुकैस्तत्र यत्रास्तां देवर्सिर्मे प्रियतमो यदि मो धनदात्मजो तत्तथा साधयिष्यामि यद्गीतं तन्मह्यं मह्यं मन्मह्य महात्मनां देवर्सिर्मे प्रियतमो यदि मो धनदात्मजौ तत्तथा धा साधयिष्यामि यद्गीतं तन्महात्मना नित्यन्तरेणार्जुनयो कृष्णस्तु यमयो ययौ आत्मनिर्वेशमात्रेण तिर्यगुन्तमुलूखलं बालेन निष्कर्षयतान्वगुलूखलं तद् तर दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ निष्पेततो परमविक्रमितातिवेपस्कन्धाप्रवालविटपकृचण्डशब्दौ तत्रशिया तत्र श्रिया परमया ककुबस्फुरन्तौ सिद्धावुपेतकुजयोरिवजातवेदा कृष्णं प्रणम्य शिरसा किल लोकनाथं बद्धाञ्जलिविरजसा विदमूचतुष्म कृष्णकृष्णमहायोगी त्वमाद्यपुरुषपर व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः त्वमेक सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः त्वमेकं त्वमेव कालो भगवान् विष्णुरव्ययेश्वरः त्वं महान् प्रकृतिसूक्ष्मारजसत्त्वतमोमये त्वमेव पुरुषोऽध्यक्ष सर्वक्षेत्रविकारमे गृहमाणे त्वमग्राशो विकारैः प्राकृते गुणैः कोन्विहार्हति विज्ञातुं प्रासिद्धं गुणसंमृतः तस्मै तुभ्यं भगवते वासुदेवाय वेधते आत्मद्योतगुणैच्छन्नं महिम्ने ब्रह्मणे नमः यस्याावतारा ज्ञायन्ते शरीरे स्वशरीरिणः तैस्तैरतुल्यातिशैर्वीर्यै देहि स्वसङ्गतये स भवान् सर्वलोकस्य भवाय विभुवाय च नवतेन सभागेन साम्प्रतं प्रतिराशिसां नमः परं कल्याण नमः परं मङ्गलम् वासुदेवाय शान्ताय यदूनां पते नमः अनुजानीहि नो भूमन् तवानुचरकिङ्करौ दर्शनं नौ भगवत ऋषिरासीदनुग्रहात् कथने श्रवणौ कथायां हस्तौ च कर्मसुमनस्वपादयो न स्मृत्यां शिरस्तवनिवासजगत्प्रणामे दृष्टि सतां दर्शने स्तु भवत्तनूनां शेषो उवाच इत्थं सकीर्तेस्तताभ्यां भगवान् गोकुलेश्वरः नाम्ना चोलुखले बद्ध प्रसन्नाः गुह्यको ते भगवानुवाच ज्ञातम् मम पुरैर्वैतदृष्टिणा करुणात्मना यत् श्रीमदान्धयोर्वाग्भिर्विभ्रंसोऽनुग्रहकृतः साधूनां संचित्तानां सुतरां मत्कृतात्मनाम् दर्शनाम्नो भवेद्बन्ध पुंसोक्ष्णो सवितुर्यथा तद्गच्छतं मत्परमौ नलकूबरसाधनं सञ्जातो मयि भावो वाप्मीप्सित परमो भवः शेषोकुवाच इत्युक्तौ तौ परिक्रम्या प्रणम्या च पुनः पुनः बद्धो लूखलमामं च जग्मतुर्दशमुत्तराम् ते श्रीमद्भागवते महापुराणे पारभंसां शयितायां दशमस्कन्धे पूर्वार्धे नारशापोनां दशमोऽध्यायः